नारदपुराणं पूर्वार्थम् अध्यायं षोट्टि शनक उवाच अतः परं प्रवक्ष्यामि विभूतिं वैष्णवीं याम यां शृण्वदां कीर्तयदां सद्यः पापक्षयो भवेत् वैवस्वते तरे पूर्वम् चक्रस्य च चा बृहस्पतेः संवादः सुमहानासीत् तं वक्ष्यामि निशामय एकदा सर्वभोगाढ्यो विबुधैः परिवारितः अप्सरोगणसङ्कीर्णो बृहस्पतिमभाषद इन्द्र उवाच बृहस्पदे महाभाग सर्वतत्वार्थकोविदादिदब्रह्मणकल्पे सृष्टिकीदृग्विधा प्रभो इन्द्रस्तु कीदृश्यप्रोक्तो विविधा कीदृशा स्मृताः तेषां च कीदृशं कर्म यथावद्वक्तुमर्हसि बृहस्पतिरुवाच न ज्ञायदे मया शक्रपूर्वे द्युश्चरिदं विधेहि वर्तमानदिनस्यापि दुर्ज्ञेयं प्रतिभागि मे मनवसमतीताश्च तान्वक्तुमपि न क्षमः यो विजानादितं त्य कथयामि निशामय सुधर्म इति विख्यातः कश्चिदास्ते पुरे तव भुञ्जानो दिव्यभोगांश्च ब्रह्मलोकादिहागतः स दि वा ये तद्विजानादि कथयामि निशामय एवमुक्तस्तु गुरुणा शक्रस्तेन समन्वितः देवतागणसङ्कीर्णः सुधर्मनिलयं ययौ समागतं देवपदिं बृहस्पतिसमन्वितं दृष्ट्वा यथार्हं देवर्षे पूजयामास सादरम् सुधर्मेणार्चिदश गो दृष्ट्वा तक्ष्रियमुत्तमाम् मनसा विस्मयाविष्टः प्रोवाच विनयान्विदः इन्द्र उवाच अदितब्रह्मकल्पस्य वृत्तान्तं वेत्सि चेद्बुद्ध तदाख्याखिसमायादयेदत्प्रष्टुं स याजकः गदनिद्रांश्च देवांश्च येन जानासि सुव्रतद्वदस्वाधिकस्मादस्मद्भ्योऽपि दिविष्ठिदः तेजसा यस्य सा कीर्त्या ज्ञानेन च परन्तपदानेन वा तपोभिर्वा कथमेदादृश्यः प्रभो इत्युत्युक्तो देवराजेन सुधर्मा प्रशसंस्तदा प्रोवाच विनयाविष्ठपूर्ववृतं यथाविधि सुधर्म उवाच चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते एकस्मिन् दिवसे शक्रमनवश्च चतुर्दश इन्द्रांश्चतुर्दश प्रोक्ता देवाश्च विविधा पृथक इन्द्राणां चैव सर्वेषां मन्वादीनां च वासव तुल्यदा तेजसा लक्ष्म्या प्रभावेण बलेन च तेषां नामानि वक्ष्यामि शृणुष्व सुसमाहितः स्वयम्भुवो मनुःपूर्वं ततस्वारोचिषस्तथा उक्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा वैवस्वदो मनुश्चैव सूर्यस्तावर्णिरष्टमः नवमो दक्षसावर्णि हृदेशमो ब्रह्म सावर्णिर्धर्मसावर्णिकस्ततः ततस्तु रुद्रसावर्णि रोचमानस्तदस्मृतः भौत्यश्चतुर्दश प्रोक्त ये देहि मनवस्मृताः देवानिन्द्रांश्च वक्ष्यामि शृणुष्व विबुधर्षभा या मा इति समाख्यादा देवास्वायं भुवें तरे शचीपदि समाख्यादस्तेषामिन्द्रो महापतिः पारावताश्चतुषिता देवा स्वारोचिषेन्दरे विपश्चिन्नाम देवेन्द्रं सर्वसम्पत्समन्वितः सुधा मानस्तथा सत्याशिवाश्चायप्ररर्तन प्र प्रदर्दनाः तेषामिन्द्रः सुशान्तिश्च तृतीये परिकीर्तिदः सुधास्पाराहराश्चैव सुत्याश्च सुधियस्तथा तेषामिन्द्र शिव प्रोक्तश्चक्रस्तामसकेन्तरे विभनामदेवपदिः पञ्चमपरिकीर्तितः अमिता भदयो तथा शृणु आज्याद्या विबुधा प्रोक्तास्तेषामिन्द्रो मनो जवः आदित्य सुरुद्राद्या देवा वैवस्वतन्त्रे इन्द्रपुरन्दरप्रोक्तसर्वकामसमन्वितः अप्रमेयाश्च विबुधास् सुतपाध्या प्रकीर्तिताः विष्णुपूजाप्रभावेण तेषामिन्द्रो बलिस्मृतः पाराद्या नव मे देवा इन्द्रश्चाद्भुत उच्यते सुवासनाद्या विबुधा दशमे परिकीर्तिताः शान्दिर्नाम च तत्रेन्द्रः सर्वभोगसमन्वितः विहङ्गमाद्या देवाश्च तेषामिन्द्रो वृषस्मृतः एकादशे द्वादशे निबोधकथायामि ते ऋग्भुनामा च देवेन्द्रो हरिनाभास्तथा सुराः सुत्रामाद्यास्तथा देवास्त्रयो दशतमेन्दरे दिवस्पतिर्महावीर्यस्तेषामिन्द्रप्रकीर्तितः चतुर्दशे चाक्षुपाद्य देवा इन्द्रशुचिस्मृतः एवं ते मनवः प्रोक्ता इन्द्रादेवाश्च तत्वतः यकस्मिन् ब्रह्मदिवसे स्वाधिकारं प्रभुञ्चते लोकेषु सर्वसर्गेषु सृष्टिरेकविधा कर्तारो बहवः तत्सङ्ख्यां वेत्तिको विदः मयित्तिदे देब्रह्मलोके ब्रह्माणां बहवो गताः तेषां संख्यान शक्रोऽस्म्यद्यद्विजोत्तम स्वर्गलोकमपि प्राप्य यावत्कालं शृणुष्व मे चत्वारो मनवोदिता मम श्रीश्चादिविस्तरा दव्यं च मया द्रैव युगकोडिशतं प्रभो ततः परं गमिष्यामि कर्मभूमिं शृणुष्व मे मया कृतं पुराकर्म वक्ष्यामि तव सुव्रद वददां शृण्वदां चैव सर्वपापप्रणाशनम् अहमांसपुराशक्रगृध्रः पापो विशेषतः स्थितश्च भूमिभागेवै अमेध्यामिषभो जनः एकदाहं विष्णुगृहे प्राकारे संस्थितः प्रभो पदितो व्याधशस्त्रेण सायं विष्णोर विष्णोर्गृहाङ्गणे मयि कण्ठगदप्राणे भषणो मां लुपः भक्षणो मां लुपः जग्राह मां स्ववक्रेण स्वभिरन्यैश्चरन्द्रुदः वहन्मां गदप्रदक्षिणाकारं विष्णोस्तन्मन्दिरं प्रभो तेनैव तुष्टिमापन्नो ह्यन्दरात्मा जगन्मयः मम चापि शुनश्चापि दत्तावन्परमं पदम् प्रदक्षिणाकारतया गदस्यापीदृश्यं फलं सम्प्राप्तं विबुधश्रेष्ठ किं पुनः सम्यगर्चनाद इत्युक्तो देवराजस्तु सुधर्मेण महात्मना मनसा प्रीतिमापन्नो हरिपूजारतो भवद तथापि निर्जरा सर्वे भारते जन्मलिप्सवः समर्चयन्ति देवेश्यम् नारायणमनामयम् तानर्चयन्ति सततं ब्रह्माद्या देवतागणाः नारायणानुस्मरणाद्यदानां महात्मनां त्यक्तपरिग्रहणम् कथं भवत्योग्र भवस्य यदि मुक्तिभाजः ये मानवाः प्रतिदिनं परिमुक्तः सङ्गा नारायणं गरुडवाहनमर्चयन्ति ते सर्वपापनिकरैपरिदो विमुक्ता विष्णोः पदं शुभतरं प्रदि यान्ति हृष्टाः ये मानवा विगदरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति ध्यानेन तेन हद किल्बिषचेदनास्ते माधुः पयोधररसं न ये मानवा हरिकथाश्रवणास्तदोषाः कृष्णाङ्पद्मभजने रथचेदनाश्च ते वैपुनन्दिजगन्दिशरीरसङ्गात् सम्भाषणादपि ततो हरिरेव पूज्यः हरिपूजापरा यत्र महान्तः शुद्धबुद्धयः तत्रैव सकलं भद्रं यद्धा निम्ने जलं द्विज हरिरेव परो बन्धुर्हरिरेव परागतिः हरिरेव ततः पूज्यो यतश्चेदन्यकारणं स्वर्गापवर्गफलदं सदानन्दं निरामयं पूज्यस्य मुनिश्रेष्ठ परं श्रेयो भविष्यति पूजयन्ति हरिं यदु निष्कामाशुद्धमानसाख तेषां विष्णुप्रसन्नात्मा सर्वान् कामान् प्रयच्छति यस्त्वे दक्षृणु यद्वापि पठेद्वा सुसमाहितः स प्राप्नोत्यश्वमेधस्य फलं मुनिवरोत्तम इत्येतत्ते समाख्यातं हरिपूजा फलं द्विज संकोच विस्तराभ्यां तु किमन्यत् कथयामि ते इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्ये चत्वारिंशोऽध्यायः ओ